बभो वा मृता सुर्वर्धमानः सुजन्मा अदब्धा सुर्भाजमानो हे वत्तो धर्ता दा आयो धर्माणि प्रथमः ससा दततो वपुम् शिकृसे पुरोणि भाष्युर्योनिम् प्रथमामेव यो वाचमनोदिताञ्चिकेता यस्ते शोकायतन्वम् नृवेदक्षदद्धिरण्यम् श्रुतयो नु स्वाह अत्रादधेते अमृतानि नामास्मे वस्त्राणि विषये रयन्ताम् प्रयते ते प्रेतरम् पौर्व्यम् दुः सतः कविःशस्य मातरारिहाणे जाम्ये तुर्यम् पतिमेरयेथाषु ते महत्पृथुद्मन्नवः कविः काव्येनाकृणोमि यत्सम्यम् चावभियन्तावभिक्षामत्रा मही रोधचक्रे वा वृधेते सप्तमर्यादा कवयस्ततच्छुस्तासामिदेकामभ्यम् हुरोगात् आयोर्हस्कम्भमुपामस्य नीणे पथाम्बे सर्गे शरुणेषु तस्थौ उतामृता सुरव्रता ये मि कृण्वन्नसोरात्मा तन्वा उत वा शक्रोरत्नन्दधात्योर्जया वायत्स च दयहविर्दाः स्वस्तये दर्शन्नुता वरुणयास्ते विष्ठा अर्धमर्धे नपयसा पयसा प्रणक्षर्धेन सुष्मवर्धसे अमुर सखायं वरोणं सखायम् वरुणम् पुत्रमदित्यायिशिरम् कविशस्तान्यस्मै वपोहंशवोचामरोदसी सत्यवाचा तदिदासभुवने सज्ज्येष्ठय्या जज्ञमुग्नश्वम् नः सद्यो जज्ञानो ननुयते त्रिशत्रो ननुयतेनम् मदम् च विश्वभूमाः वावधानः शमासाधूर्यजा शुर्दासायभियसन्तसाति अव्यनच्चव्यनच्च षष्टि सन्धेन वन्तप्रभृतामदेषु त्वे क्रतुमपि प्रञ्चन्त्य भो निर्दिल्यते ते प्रभवन्त्योमाः स्वादोऽस्वादेयस्वादुना सदा समदस्वमधुमधो नाभियोधीः यदि शन्नोत्वाधनाचयन्तम् रणे रणे अनुमतम् च भोजे यस्वस्मिन् स्थिरमादनुष्ममाद्वादभन्तु देवासः कशोकाः त्वया वयं सा शत्महेरणे स्वप्रपश्यन्तो युधेऽन्यानि चोदयामिता यो भावचोभिः सन्ते शिजामे ब्रह्मणापयांसे निदर्जाधिशयवादे परे जयस्मिन्नाविधा वासाधुरोणे आस्थापयतमातरम् जिगत्नुमता यिन्वतकर्वादानि भूरि स्तुष्वर्ष्पम् पुलवर्त्मानम् समृभ्वाणमिनतामवाप्तमाप्त्याना आदर्शदिश वा साभोर्यजा प्रसक्षति प्रतिमानम् पृथिव्याः इमा ब्रह्म बृहद्देव प्रणवतीन्द्राय सोषमग्रियः स्पर्शाः महागोक्रस्य क्षयति स्वराय तु नश्चिद्विश्वमरणपत्तपस्वान् महान् बृहद्देवो अथर्वाोचस्वान्त आमिन्द्रमेव स्वसादौ मातरिभ्रे हरिप्रहिन्दम् दे देनेशव सावर्धयन् युज ममाग्ने वर्चो विहवेश्वस्तु वयम् प्रेन्धाना स्थन्दम् मह्यम् न मन्ताम् रदिशश्च तस्त्वयाध्यक्षेण पृदनाजयेम अग्ने मन्युम् प्राति नुदम् परेषाम् तन्नो गोपाः परे पाहि विश्वताः अपराञ्जायन्तु निमता सुरस्य होमेषाम् चित्तम् प्रबुधाम् मम देवाविहवे सन्तु सर्व मरुतो विष्णोरग्निः मान्तरिक्षमुरुलोगमस्तु मह्यम् वादः पवताम् कामायास्मै मह्यै यजन्दाम् मयामेष्टा गो ेनो मानिकाङ्कतमच्च नाहम् विश्वे देवाभिलक्षन्तु मेह मयि देवाद्रवे न मायाजन्ताम् मयि आशेनस्तु मयि देवहोतिः दैवाहोतारस्सनिषन्नतदरिष्टा दे। स्याम तन्वा सुवीयाः दैवेश्च धर्मे रुणात विश्वे देवास इह मादयध्वम् माना वितदभिभामाशस्त्यर्मानोः विददृशिना ज्याय तिस्रो दे रेर्महे नः शर्मा यच्छत प्रजायेन स्तम्भे च पुष्टम् माहास्महि प्रजयामातनो धर्माराधाम द्विशते सोम राजन् रो व्यचानो महिषः े धाता भुवनश्च रजस्पतिर्देवः स विदाभीमातिशाहः आदित्या रुद्राश्विनोभा देवाः पाहन्तु यजामानम् निर्वथान् येन सपत्नापते भावन्दिन्द्राग्निभ्यामगा माधामह येनान् आदित्या रुद्रावोपरिस्पृशो न मुग्नम् चेत् तारमधिराजमक्रत अर्वाञ्रविन्द्रममुदो हवामहे योगो दिग्धनचिदस्वदिद्यः इमम् नो यज्ञम् विहवे शृणो त्वस्माकमघोरहर्यश्वमेधी यो गिरिश्वजा यथा वेरुधाम्बलवत्तमः पुष्ठेः तक्ष्मनाशनतक्ष्मानन्नाशयन्नितः सुवर्णसुपाणे गिरौ जातम् हिमवदस्परे धनैरभिः श्रुत्वा यन्त्य विदुर्हिरक्मनाशानम् अश्वत्थोदे वसतनस्तुदे यस्यामितो दिवे तत्रामृतश्च चक्षरणम् देवा कुष्ठमवन्वत हिरण्ययेनौराचरद्धिरण्यबन्धनादिवे तत्रामृतस्य पुष्पम् देवाः कुष्ठमवन्मत हिरण्ययाः पन्थानासन्नरित्राणि हिरण्यया नागो हिरण्ययेरासन्न्याभिः पुष्ठन् गिरावाहन् इमम् मे कुष्ठपूरोषन्तमावाहतम् निःस्पोरो नमो मे अगतम् ेवेभ्योऽजातोऽसि सोमस्यासि सखाहितः सप्ताणायौ व्यानाय चक्षोषे मे अस्मै मृढ पुरम् जातो हिमवतः स प्राख्यान्नीयसे जनम् तत्र कुष्ठस्य नामान्युत्तमानि बिभेजुरे उत्तमो नाम कुष्ठास्युत्तमो नाम ते यक्ष्मम् च सर्वम् नाशय चक्माणम् दानसङ्क्रहधे शीर्षमयमोपहत्यापक्ष्य स्कन्भो ओरपाः कोष्ठस्तत्सर्वम् निष्कारद्दैवम् समः वृष्ट्यम् रात्रे माता नभः पितामहः शिलाची नामवासिषा देवा नाम शिश्वसा यस्त्वापि वा द्विजैवासित्राय स पुरोषम् त्वम् भक्त्रे शश्वतामसि जनानाञ्चन्यम् जानी वृक्षम् वृक्षमारोहसि वृषण्यम् देवकन्ये प्रत्यातिष्ठन्ले स्फराले नामवासि यद्दण्ड नयतिश्वायद्वारुर्हसाकृतम् तस्य पमासि निष्कृतिशमन्निष्कृधिपूरुषम् भद्रात्पक्षान्निश्चिष्ठस्य स्वदिराद्धमात् भद्रान्यक्रोधात् पर्णात् सा नये रुन्धति हिरण्यवर्णे रुदम् गच्छासि निष्कृते निष्कृतिर्नामवासि हिरण्यवर्णेषु भागेषुष्मे लो माशवक्षणे अपामासिश्वसालाक्षे वातो हात्मा बा भूवत् शिलाजेनामाकाज बभ्रुपिता अश्वस्याश्व वृक्षा अभिशिष्यते सरापादक्षणे भोद्दासा नये च गृन्धते ब्रह्मजज्ञानम् प्रथमम् पुरस्तार्दिशे मदः सुलतो वेदावः सर्वुद्ध्यामुपमास्य मिष्ठाः सदश्चयो निमसतश्च विवाह घनात्ता एव प्रथामायानि कर्माणि च ग्रिवे वीरान्नो अत्र मादाभम् तद् एतत्पुरोदधे सहस्राधारयेव दे समस्वरम् दिवो नागेमधो जिह्वासः तस्य स्पशो न पदे पदे वाशिणः सन्ति पर्योष प्रथन् मावाच सातये परे वृत्तानि सक्षणीः विषस्तदद्धर्णमेनेयशे सनिष्ठसो नामासेत्रयोदशो मासहिन्दस्य गृहः द्वे एते नारागाक्षेरसौ स्वाहा दिग्मा योधौ दिग्महेते सुचेभौ सोमा रुज्ज्वा विषसुमे अवैते नारात्सेरसौ स्वाहा जिग्मायोधौ दिग्महे देशुषेभौ सोमा रुद्राविह सुमृणतन्नः अपैते नारात्सेरसौ स्वाहा टिग्मायोधौ दिग्महे देशुषेभौ मूर्तमस्मान्दोलिदादमद्याज्जुषेधाञ्ज्ञमृतमस्मासु धत्तम् चक्षुषो हेते मनासो हेते ब्रह्माणो हेते तपासश्च हेते मे न्या मे निरस्य मेन यश्च सन्तु ये, ये। यो स्मांश्चक्षोषा मनसा चित्यागोऽत्याचयोधार्याभिलासात् हन्तानज्ञे मेऽन्या मेनेन्कृणु प्रपद्ये दन्ता प्रवेशामि सर्वागुः सर्वपोरुषः सर्वात् मा सर्वासनोः सह यन्ने स्थितेन इन्द्रस्य तन्त्वा प्रपद्ये तन्त्वा प्रवेशामि सर्वा आत्मा सर्वदनोः सह यन्मे स्थितेन इन्द्रस्य वर्मासीत् तन्त्वा प्रपद्ये तन्त्वा प्रवेशामि सर्व तन्त्वा प्रपद्ये तन्त्वा प्रवेशामि सर्व गुः सर्वपोरुषः सर्वात्मा सर्वतनो सहायन्मे स्थितेन आनो भरमपरिष्ठारादे मानो रक्षेद्रक्षेणाम् यमानाधे पुरोधत्स्य पुरोषम् वरिरापिडम् नमस्येतस्मै कण्मा मामनिम् व्याचयेर्मम प्रणो वनिर्देवगृहजालिमानक्तम् यकल्पताम् हरातिमनुः प्रेमोऽ वयम् नमोऽस्वरादये सरस्वते मनोमतिम् भगञ्यन्तो हवामहे वाचम् जुष्टाम्म सोमदेमवादिषम् देवानाम् देवहोदिषु इञयाचाम्यहम् वाचा सरस्वत्यामनो युधा श्रद्धातमद्यविन्द्रतु दत्ता सोमेन बभृणा मा मा वाचम् मो येऽर्थेर्भाविन् राज्ञी मा सर्वे नो अद्यदित्सन्तोरातिम् प्रदेहर्यत परोपे यसमृद्धे विदेहेतिम् न यामसि वेदपाहन्निमेवन्तेऽन्नितदन्धे मराते पुरनग्नामो भूवते स्वप्नया सा च सेचनम् परा हते महोन्मानाविश्वाशाव्यानाशे तस्येहिरण्यकेश्यैरुवृत्याशरन्नमाह हिरण्यवर्णासुभगा हिरण्यकशिवरुमहे तस्यैहिरण्यरद्रापजरात्यामाह वैकम् कतेघ्नेन देवेऽभ्याजम्बः अग्नेता इहमादय सर्वा यन्तु मेहवम् इन्द्रायाहि मे हवामिजम् गादिष्यामि चोणो इम हैन्द्रातिसरा गोतिम् सन्नामन्तु मे रेभिः शकेमवीर्या देवा देवः संस्तिके मातस्याग्निर्हव्यम् वा क्षेद्धवम् देवास्यमोपा कुर्ममैव हवमेतान अतेधावजातिशरा इन्दस्य रे अथ परम् तम् प्रत्यस्यामि मृत्यभे यदि प्रेयुद्धे पुरा ब्रह्मपर्माणि च कृते तनोपानम् परिपानम् कृण्पानाय दोपोचते सर्वम् ददा या न सावपि सरांश्चकार न्दानिन्द्रवत्रहन् प्रदेजः पुनराचयधि यथामम् तृणहाञ्जनम् यथेन्द्र उद्वाचानम् लब्ध्वाचक्रयाधस्पदम् क्रण्हमधरांसधामो शश्वतेभ्यः समाभ्यः अत्र एनालिन्द्रवर्त्रहन्नुग्रमर्माणि विध्या अत्रैवेदानभितिष्ठेन्द्रमे ज्या आहन्तव अनुत्तेन्द्रालभामहे स्याम सुमतौ तव दिवे स्वाहा पृथिव्ये स्वाहा अन्तरिक्षाय क्षुर्वादः प्राणो ओन्तरिक्षमात्मा पृथिवी शरीरम् असृतो नामाहमयमस्ति स आत्मानम् निरधेद्यावा पृथिवेभ्याङ्गोपेधाय उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्मलेषामुदिन्द्रियम् आयुष्कृतायुष्पत्नेश्व स्वथावन्तौ गोपामेस्तम् गोपायतम् मा आत्मसदो मेस्तम् मा माहिंषष्ठम् अश्वकर्म मे श्रियो माज्यादिशो घायुरभिदासात् एतत्सरत्सात् अस्मवर्म मे श्रियोमा दक्षिणायादिशो घायुनभिदासात् एतत्सरक्षात् अस्मवर्म मे श्रियोमा प्रदीच्यादिशो घायुनभिदासात् एतत्सरक्षात् अस्मवर्म मे एतत्सरक्षाद अस्मवर्म मे श्रियो माध्वायाधिशोघायुराभिदासात् एतत्सरक्षात् अस्म वर्म मे श्रियोमोऽर्ध्वायादिशोघायुराभिदासात् एतत्सरक्षाद् अस्मवर्म मे श्रियो मा दिशामण्डदेशेभ्यो घायुराभिदासात् एतत्सरक्षात् ृहतामनमुपक्वये मातरिश्वाना प्राणापानौ सूर्याच्चक्षोरन्तरिक्षाच्छात्रम् पृथिव्याः शरीरम् सरस्वत्यावाचमुपक्वयामहे मनोजुजा कथम् महे असूराया ब्रवेरिह कथम् पित्रयहराय वृष्टिम् वरणदक्षेणान् ददावान् पो नर्मघर्तुम् मनसा चिकित्सीः न कामेण पुनर्मघो भवामि सञ्चक्षेकम् वृष्ट्येमेतामुपादे केन न त्वमाधर्मम् काव्येन केन नमे दासो नार्यो महित्वा व्रतम् मे मायिताहन्धारिश्ये न त्वदन्यः कवितारो न मेधयाधीरातरो वरुणस्वधावन् त्वन्ता विश्वाभवानानि वेत्थस चिन्न त्वज्जनो माये भाय त्वम् ख्या आङ्गवरुणस्वधावन्विश्वा वेत्थ जिने मासु प्रणेदे किम् व्रजास येन परो अन्यदस्त्येन किम्बरेण बालममुर एकम् रजास येन परो अन्यदस्त्येन विद्वान् वारुणप्रब्रवेम् यथोवादशः प्रणयो भवन्तु नीधेर्दासा भूमिम् म् स्या आङ्गवरुणब्रुवेष्मपद्यानि भोरि मोषुपणे उरभ्ये एतावतो भून्मात्वा भोजन्नराधसञ्जना सह मा भोजन्नराधसञ्जनासः पुनश्च पुष्णिम् जनितर्ददामि सोऽत्रम् मे विश्वमायाहिजेऽभिरन्तर्विश्वासु मानो शेष दिक्षो आदे सोत्रान्यतानियन्त्रन्धर्विश्वासु मानो शेष दिक्षो देहिनु मे यन्मे अदत्त्वाऽसीर्ज्यो मे सप्तमादः सखासे समानो बन्धर्वरुण समाजा वेदाहम् दद्यन्ना वयसा वे समाजा ददामि तद्यत्ते अदत्तोऽस्मि युद्धस्ते सप्तपदः सखास्मि देवो देवाय न देवयोधा विप्राविप्रायस्तु पते सो मेधाः अजेज नाहि वारुणस्वधाभन्न सर्वाणम् पितरम् देवबन्धुम् तस्मा पुराधकृणेषु प्रशस्तम् सखा नासि समिद्धो अद्य मनोषो देवो देवो देवान्यरसिजातवेदः आचवः मित्रमहश्चिकित्त्वान्त्वम् दोदः कविराशिप्रचेताः तनो नपात्पथरतस्य यानान्मद्धासु मन्दन् स्वदयासु जिह्वा मन्मानिधिभिरुदयज्ञवृन्धन् आजुह्वानयेभ्यो वन्द्यश्चायाह्यज्ञेऽवशोभिः सजोषाः त्वम् देवानामस यः वोदाशये नान्यक्षेषितो हि जीयान् राजेनम् मरेः प्रदिशाः पृथिव्यावस्तोस्यावृज्यते अग्रे अह्नाम् व्यप्रसते वितरम् वरे यो देवेभ्यो अदेतये रचस्वतेरुर्व्यविश्रायन्ताम् पदेभ्या नगनाय शुम्भमानाः देवेर्द्वारो बृहतेर्विश्वमिन्वा देवेभ्यो भवत सुभ्रायनाः आसुष्मयम् दे यजते उपागे वृषासानक्ताः सतपा दिव्ये योषणे बृहते सोऽग्भ्ये अधिश्रियम् सुप्रविपिशम् दधाने देव्या होतारा प्रथमासुवाचामिमानायज्ञम् मनोषो यजध्यैदयम् दादशेषु कालो प्राचीनम् ज्योतिःप्रतिशादिशन्ता यज्ञम् भारते तोयामे त्विडामनुष्यति अचेतयन्ति तिस्रो देवेर्बलिरेदम् स्यानम् सरस्वते स्वपासः सदन्ताम् प्रियमेऽद्यावापृथिवे जनिद्रे रूपैरपिम् सद्भुवानानि विश्वाः मद्यहोतरिषितो युजीयान् देवम् दष्ठामिहयक्षि विद्वान् उपावासु चन्यासमञ्जम् देवानाम् पाचारुथाहवींसि परस्पतिः समिता देवो अग्निस्वदम् गहव्यम् मधूनाधृतेन सद्योदातो व्यामिमेतयज्ञमग्निर्देवानामभवत्पुरोगाः अस्य होदः प्रशिशतस्य वाचि स्वाहा कृपम् अभिरदन्तु देवाः मह्यम्बरो नो दिवः कविर्वचोऽभिरुग्रेर्निरेणामिते विषम् खातमखातमुतसक्तमग्रभमिरेव जातते विषम् यत्ते अपोदकम् विषम् तत्तयेता स्वग्रभम् गृह्णामी ते मध्यममुत्तमम् वृषामुतावमम् भियसाहाने शदादूते वृषा मेदवो न सानतम् निरुग्रेण देव च सा बाधादूते अहन्तमस्य निर्भेलग्रभम् रसन्तमाशैवज्योतिरुदे तु सूर्याः चक्षुषा विषम् अहेम्रियः समाजेवे प्रत्यगभ्ये दत्त्वा विषम् रैलातपृष्णमुपातृण्यपभ्रामेः श्रुणुतासीतालीकाः मा मे सख्यस्तामानमपिष्ठाताः श्रावयम् ध्वनिविशलभद्धम् असितस्य दैलातस्य च सात्रा साहस्याहम् मन्योरवर्ज्यामे वधन्नाविमुञ्चामिरथा इव आलेगे च विलेगे च पिता च माता च विद्मवः सर्वदापन्भर सा किम् करिष्यथ गुरुगोलायादुहिता जाता दास्यसिज्ञा रतङ्कम् दजृषे नाम् सर्वा कर्णाश्वावित्तरब्रवीद्गिरैरावचलन्ति का याः काश्चेमाख्यानित्रिमास्तासामरसतमंविषम् काबुवन्नताबुवन्नघे ताबु त्वमासि ताबुवम् काबुवेना रसंविषम् सुपर्णस्त्वान्वा विन्दत्सोकरस्वाघनन् न सा नित्सौषधे त्वम् व्यप्सम् तमवाकृत्याकृतम् जहि अवाजहिदुधा नानवाकृत्याकृतम् जहि अथो यो अस्मान्निप्सति तमत्वम् जह्योषधे ऋष्यस्येव परेशासंवारिकृत्यपरि त्वचः कृत्याङ्कृत्याकृते दे देवानिष्कमे वप्रदेमुञ्चत पुनः कृत्याङ्कृत्याकृते हस्तगत्यापराणय समक्षमस्माधेः यथाकृत्याकृतम् हनाद् कृत्या सन्धृगत्याकृते शपसः शपथीय सुखो रथ इव वर्तताङ्कृत्यागत्याकृतम् पुनाः गृस्त्रेयते पापमान् प्रत्याम् चकार पाप्मने तामुतस्मैरयामस्य स्वामिवाश्वाभिधान्या यदि वासे अग्रे दायते वा पुरोषये कृता तान् ता पुनर्नयामसेन्द्रेण सयुजाः वयम् अग्ने पृतनाशात्पृतनाः सहस्व पुनः कृत्याङ्कृत्याकृते प्रतिहरणे न हरामसे कृतव्यथनिवेध्यतञश्चकारतमिज्याहे नत्वामजकृषे वयम् वधाय संशय शीमहि पुत्र एव पितरम् गच्छस्वजयेवाभिष्ठेतो दश बन्धमेवावख्याकृत्यै कृत्याकृतम् पुनः पुतेनैव वारण्याभिस्कन्दम् मृगेव कृत्याकर्तारामृच्छतो इश्वारिते यः पतद्यावापृथिवेदम् प्रति सा तम् मृगमेव गृह्णातु कृत्याकृत्याकृतम् पुनः अग्निदेवै तु प्रतिकूलामनोकूलामिवोदकम् सुखरथा इव वर्तताम् कृत्याकृत्याकृतम् पुनः एकाच मे दशाचमेव भक्तार वोषधे वृता जातरुता वरिमथो मे मधुरागारः रे च मे विंशतिश्च मेऽपभक्तार वोषधे वृता जातरुता वरिमधो तिस्रश्च मे त्रिंशच्चमेव भक्तार वोषधे वृजातरुता वरिमथो मे मधुरागारः चतस्रश्च मे चत्वारिंशच्च मेऽपभक्तार वोषधे विपाजादर्तावलिमधो मे मधुराकारः पञ्चा च मे पञ्चाशच्च मेऽपभक्तार वोषधे राजादरतावलिमधो मे मधुराकारः षट् वृता जातरुताः आवरि मधो मे मधुलागारः अष्टचा मे शैतिश्च मेकभक्तार वोषधे वृताजातरताः वरि मधो मे मधुलागारः नमागमे न मिश्च मेघभक्तार वोषधे वृताजातरताः वरि मधो मे मधुलागारः दशज मे शतञ्च मेकभक्तार वृता चादर्तावरि मधो मे मधुलाकारः शरञ्जामे सहस्रञ्चापवर्तार वोषधे वृदाजातरुतावरि मधो मे मधुलाकारः यब्ज एकवृषोऽषि सृजारसोऽसि यदिज्यपृषोऽषि सृजारसोऽसि यदितृपृषोऽषि सृजारसोऽसि यदि चतुर्वृषोऽषि सृजारसोऽषि यदि पञ्च वृषोऽषे सृजारसोऽषे यदि षड् भृशोषे सृजारसोऽषे यदि सप्त वृषोषे सृजारसोऽषे यद्यष्ट वृषोषे सृजारसोऽषे यदि नव वृषोषि सृजारसोऽषे यदि दश वृषोऽषि सृजारसोऽसि यद्येकादशोऽसि सोपोदकोऽषि ेवदम् प्रथा मा ब्रह्म निर्विषगोपारस्सलिलो मातलिष्वा वेणुहारास्तपा उब्रह्म यो भो राभो देवे प्रथमजारतस्य प्रथमो ब्रह्मयायाम् पुनः अन्नर्चितावरोणामित्रा चेदग्निर्होता हस्तरुह्यानेनाय हस्तेनैव ग्राह्यासिलस्य ब्रह्मजायेति चेदवोचत् न धूताय प्रहेयातस्थ एषा तथा राष्ट्रङ्गोपितम् क्षत्रियस्य यामाहुस्ता न कैशाविकेशे सा ब्रह्मजाजाविदो नोतिराष्ट्रम् यत्र प्रापादि ससौर्कुषीमान् भवत्ये च रतिदेवे सद्विषस्स्रदेवानाम् भवत्येकमङ्गम् तेन जायामन्वन्द बृहस्पतिः सोमेन देवावाये तस्यामवदन्तपूर्वे सप्त ऋषयस्तपसाये निषे दो धीमाचाया ब्राह्मणस्यापानेतादुग्धाम् दधाति परनेग्योमन् ए उत यःपदयोदशस्त्रियाः पूर्वे अब्राह्मणाः ब्रह्मा चेर्थस्तमग्रहेत्स एव पतेर्गधा ब्राह्मण एव पतिर्नराजन्यो ओ नवेश्याः तत्सौर्यः पुनर्वैर्देवादधुः पुनर्मनुष्याददुः राजानः सत्यम् गृह्णाना ब्रह्मजायाम् पुनर्दतुः पुनर्दाय ब्रह्मजायाम् धृत्वा देवैर्नेकिल्पिषम् ऊर्जम् पृथिव्याभक्तो लोकायमुपासते नास्य जाया श तवाहे कल्याणी कल्पमाश ये यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाजित्या न वे कर्णपृथुषे राष्ट्रस्मिन्वेश्म निजायते यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाजित्या नास्य क्षत्तानिष्कर्ग्रेव सोनामेत्यग्रहतः यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाजित्या नास्य श्वेतः कृष्णकर्णोऽयुक्तोमाहीयते यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाजिद्या नास्य क्षेत्रे पुष्करिणीनाण्डेकम् जायतेऽभि सन् यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाजिद्या नास्मै पृष्टिम् विदोहम् दिये स्यादोहमुपासते यस्मिन् राष्ट्रे नेरुभ्यदेव ब्रह्मजायादित्या नास्य धेनुकल्यागीनानढ्वान्साहतेधुरम् विजानर्यत्र ब्राह्मणो रात्रिम् वसादि पापया नैताम् ते दे देवादतुस्तुभ्यम् दे नृपते अस्ते मा ब्राह्मणस्य राजन्यगाम् जेघत्सोऽनाद्या रक्षद्रग्धराजन्यः पापः आत्मपराजितः स ब्राह्मणस्य गामद्यादद्यजे हे वाणिमाश्वः आवेष्टिताघवेशा वृथा कोलेव कर्मणा सा ब्राह्मणस्य राजन्यतुष्टेशा गौरानाद्या निर्वयेक्षत्वन् नयाति हन्निवर्ध्योऽग्निवारब्धो विदो नोति सर्वम् योऽ ब्राह्मणम् मन्यते अन्नमेव सविषस्य विमदितै मातस्य येनम् हन्ते मृदम् मन्यमानो देव पेयर्थनकामो न ब्राह्मणोऽसितव्यज्ञः प्रियगमोदिव सो माह्यस्य तायाच इन्द्रा अस्याभिषत्तिपाः सतापाष्ठान्निगेदपितान्न शक्नोमि निःखिदन् अन्न यो ब्रह्मणाम् मल्वस्वाद्वा आत्मेति मन्यते ्या भवति पुल्मालम्बाङ्याडिकारन्तास्तवसाभिदिग्धाः रेभिर्ब्रह्मा विद्यते देव पेयोन्हृद्बलैर्सद्भिर्देवज्योतैः हेक्ष्णेण वो ब्राह्मणा मनोहाय तपासा मन्युना चोतदूरादपाभिन्दम् जैनम् एषहस्रमराजन्नासन् दशसताहुता ते ब्राह्मणस्य गान्यग्भावैदहव्याः पराभवन् गौरेवताह्न्यमानावैदहव्या पराजिरत् एकेसारप्राबन्धायाश्च नमाजाममेजिरन् एका स तन्तादलताया भो निर्व्याधोऽनुता प्रजाम् हित्वा ब्राह्मणेमसम्भव्यम् पराभवन् देव पेयश्च रतिमर्त्येषकरकीर्णाभावत्यस्थे भूयान् यो ब्राह्मणम् देवबन्ध्वम् हिनस्ति न सपि अग्निर्वेनः पदवायः सोमोदायादमुच्यते हन्ताभिषस्तेऽन्रस्तधा तद्वेधसो पितुः विशोरिव देग्धापदे वृथा गोरेव गोपते भृगम् हिंसित्वा शृञ्जाया वैदहव्यापराभवन् हे बृहत्सा मालमाङ्गिरसमार्पयन् ब्राह्मणम् जनाः प्रे त्वस्तेषामुपयातमपि श्लोकान्यावयत् ये ब्राह्मणम् प्रत्यष्ठेवन्येवास्मिन् शुल्कमे शिरे अस्तस्ते मध्ये कुल्यायाः केषाम् खादम् दासते ब्रह्मकवे पच्यमानाय वत्साभिविजङ्गहे हे जोराष्टस्य निरुषम् जिलवीरोयते वृषाः गौरवस्याशसानम् दृष्टम् पेषितमस्यते क्षीरैरस्यायते तद्वैपिदृशगिल्बेषम् उग्रो राजा मन्यमानो ब्राह्मणयो रिघत्सति परा तत् शच्यते ब्राह्मणो यत्रा धीयते अष्टापार्ये चतुर्लक्ष्ये चतुःश्रोत्रा चतुर्हणः द्या स्याद्विक्पा भोत्वा ब्रह्मज्यस्य तद्वै राष्ट्रमाश्रावतिनामम् भिन्ना ब्रह्माणै यत्रहिंसन्ति तद्राष्टं हन्ति रुत्सुना तम् वृक्षा अपासेधन्ति छायाम् नामोपगादिति योऽ ब्राह्मणस्य सद्धनमभिना रथमन्यते विषमेतदेव कृतम् राजावरोणोऽब्रवीत् न ब्राह्मण सुखान् जग्ध्वा न देवता न पतयो भो निर्व्याधूलुता वदाह्निम् श्रित्वा ब्राह्मणेमसम्भव्यम् पराभवन् याम् वृदायानुबन्ते गोद्यम् पदयोपनीम् तद्वेर्द्रम् हर्जत देवाहोपस्तमब्रुवन् हर्ष्रो निकृपमाणस्य याने जीतस्य वा ऋतुः त्रम्भै ब्रह्म मज्जते देवा अपाम् भागमधारयन् येन मृतम् स्रपयन्ति श्मश्रोणि येनोन्दते त्वम्भै ब्रह्मज्जते देवा अपाम् भागमधारयन् न वर्षम् मयित्रा वरुणम् ब्रह्मज्यमभिवर्षते न स्मेषमेतिः कल्पते न मित्रम् नायते वशम् उच्चैर्घोषानुन्दभिः सत्त्वनायन्वानस्पत्यः सम्भृतमुश्रियाभिः वाचम् क्षुणवालोदमयन् समर्नान् सिंह एव जेष्यन्नभितम् शनेः सिंह एवास्थाने ध्रुवयो कृशा त्वम् बद्धा यस्त्य सपत्ना अयेन्द्रस्त्य शुष्माभिमादिशाहः कृषेव योधय सहासा विधानो गव्यभिलोवसन्धनाजित् शुचाविध्यहृदायम् परेषाम् हित्वा ग्रामान् प्रच्योदायम् तु शत्रावः सञ्जयन्प्रदानाभूर्ध्वमा निर्गृह्या गृह्णानोपाहृता विजक्ष्वा देवेम् वाचम् वन्दुभागोरस्वभेधा शत्रूनामुपभरस्वभेदा वन्दुभेर्वाचम् प्रजाताम् वतम् देवासम्वतेनाथिता घोष बुद्धा नारे पुत्रम्भावतु हस्तगुह्यामित्रेभेदा समनेऽवधानाम् पूर्वादुन्दुभय प्रवादाशिवाचम् भूम्यात् पृष्ठे वा तदोचमानः न मित्रसेनामाभिजञ्जयभानाद्युमद्दुन्दुभय सोमृतावत् अन्तरे मेन भासे घोषास्तु पृथक्ते ध्वनयोयन्तु शेभम् अभिक्नन्दस्तनयोत्पिपानश्लोकतर्नित्रतोर्यायस्पर्धे हेभ्यक्त प्रवादादिवादमुद्धर्षय सत्पामायूधानि इन्द्रामेधे सत्प न निष्पायस्तु मित्रैरमित्रा पवाजङ्घनीः सङ्ग्रन् प्रपदो धृष्टश्रेण प्रवेदकृद्वृद्धाग्रामघोषि श्रेयः केदोऽवधुजित्सहीयान्नङ्ग्रामजित्सञ्झेतो ब्रह्मणासि अंशो ने भग्रामाधिशवाने अद्रिर्गव्यम् द्वन्द्वृभेदे नृत्यभेदाः शत्रूषाण्येषाडाभिमादिशाहो गवेश नः सहमानमुद्भिदे वाग्वेवमन्त्रम् प्रभालस्व वाचम् साङ्ग्रामदित्याये समुद्वाचेह अच्युतच्युत्समतो गमिष्ठो मृथो चेता कुलयेता योध्यः इन्द्रे न गुप्तो विदधा निजज्ञद्धृद्ध्योतानात्विषतायाहि शिभम् हृहृदयम् वै मनस्यम्वतामित्रेषु दुन्दुभे विद्वेषम् कस्माशम्भयममित्रेषु लग्मस्य वै नान्दुन्दुभे उद्वेपमानामनसा चक्षुषासदयेन च धावन्त्वपिभ्य तोमित्राः प्रत्रासेनाज्ये हुते आनस्पत्यः सम्भेदुश्रियाभिश्वगोत्यः प्रत्रासममित्रेभ्यो वदाज्येनाभिकारितः यथा मृगाः स्वम् विजन्तारण्याः पुरोषादधि ुम् रुभयमित्कानभिक्क्रम् नप्रत्रासयाथो चित्तानि मोहया तथामृतादचावयो धावन्ति बहुविभ्यादेः एवात्त्वन्तुम् द्भयमित्रानभिक्क्रम् यथा शेनात्वा चक्षणः सम्विगन्ते अहर्दिवि सिंहश्च स्थलथोर्यथा एवा त्वन्दुन्दुभिमित्रा न भिक्तम् दप्रत्राः सयाथो चित्तानि मोहय हेरिन्द्र प्रक्रीड देवद्घोषे स्थायया सः हैरमित्रास्त्रसन्दु नोमे ये यन्त्येकाशः जाघोषादन् दुभयोऽभिक्रोशन्तयादिशाः अत्सङ्गिनिरासजन्तु विगादे बाहुवीर्ये योऽयमुग्रामालतः पृष्ठिमातरण इन्द्रेण युजाप्रमरणेतशत्रून् सोमो राजावरुणो राजा महादेव उत मृत्युरिन्द्राः एता देवसेनाः सूर्यकेतवस्वचेतसः अमित्रान्नो जयन्तु अग्न्यस्तर्मानमपाबाधतामितः सोमोऽग्रापापरोणः भूतदक्षाः वेदर्परेः समिध श्वसो जानामभक्त्येषाम् च मुयाभावन्तु अय्या विश्वान् हरेतान् गृणोऽुच्छादयन्नग्निरेवाभिगन्वन् अथाहितक्मन्नरासाहिभूयाधान्यम् यः पारुषः पारुषेयो वध्वंसे वारुणः पक्मानम् विश्वधावेर्याधराम् चम्बरासु वा धराम् तक्मने। कृत्वा लक्मने शकम्भरस्य मुष्टिहा पुनरेतुमहावृषान् ओकोऽस्य मूलावन्तोकोऽस्य महावृषाः यावज्जातस्तक्मंस्तावानसि वल्ले गेशुन्योचरः तक्मञ्जालविजातव्यम् गभोरे यावय दासेन्निष्ठक्वारे मिच्छताम् वज्रेण समर्पय तक्मन्मोदवतो गच्छ बल्ले कान्वापरस्तताम् श्रोद्रामिच्छ प्रभर्व्या आन् ताम् महावृषान्मो यावतो बन्ध्दि परेत्य वेतानि लक्मणे ब्रूमो अन्यक्षेत्राणि वायिमा अन्यक्षेत्रेण रामसेवशे सन्नडयासिनः अभूदप्रार्थसमासगामिष्यति बल्लीकान् यत्त्वम् शेतोऽ रोरः सहकाशावेव पयः हेमास्ते तक्मन्नेतयस्ताभिस्मवरे वृन्धिनः मा स्मैतान्सखेण् बलासम् कासमुद्युगम् मा स्मादोर्वाङ्गे पुनस्तत्त्वा तक्ष्मन्नुपब्रुभे तक्मन्भ्रात्रा बलासेन स्वस्याकाशीकया सह पाम्नाभ्राद्रुव्येण सह धृतेयषम् विततेयम् च दन्तिमुदशारदम् तत्मानम् शेतम् रोदम् ग्रयेष्मन्नाशयवार्षेकम् ग्रन्थारिभ्यमोयवद्भ्याङ्गेभ्य गं। मगधेभ्यः प्रैष्यञ्जनमिव च वसन् दक्मानम् परे लद्मसे पोते मे द्यावाः पृथिवी मोता देवी सरस्वती ोतो मैन्द्रश्चाग्निश्चक्रमिम् जम्भयतामिति अस्येन्द्रकुमारस्य क्रिमीम् धनपते जहि हता विश्वालादयमुग्रेणमथ सा मुम यो अक्षो परिसर्पादि यो नाशे परिसर्पाधिता यो मध्यम् गच्छ्रमिम् जम्भयामसे दो दो रो द्वौ द्वौ विरोद्वौ द्वौ कृष्णौ द्वौ रोहि द्वौ द्वौ वभ्रश्च वभ्रकाण्डश्च गृभ्रोकश्च निहताः ये क्रमाय श्रिकक्षायै कृष्णा श्रीतिबाहावः एके यष्टाम् अघ्नन्नदृष्टाम् च सर्वाम् च प्रमरणम् कृमेन शासः कश्च शासय दशकास्यैव वित्मृताः दृष्टश्च हन्यताम् कृमे लुता दृष्टश्च हन्यताम् समिताप्रासवानामधेपतिः समावतो अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् गोरोधायामस्याम् प्रदिष्ठायामस्याञ्चित्त्यामस्यामागोर्त्यामस्यामाशिष्यस्याम् देवहोर्त्याम् स्वाहा अग्रवनस्पते नामधेवतिः समावत् अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम्बतिष्ठायामस्याञ्चित्त्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवोत्याम् स्वाहा यावा पृथिवेदा त्रिणामधेपध्नी देमावताम् अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम्बाधिष्ठायामस्याम् दृष्ट्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवोत्याम् स्वाहा मनो नापामधेपदिः समावत् अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम् प्रतिष्ठायामस्याञ्चित्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा निरावरोणो वृष्ट्याधिपते तौ अस्मिन् ब्रह्मण्यस्मिन् कर्मन् अस्याम् पुरोधायामस्याम् प्राधिष्ठायामस्याञ्चित्यामस्यामाहोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा मरुतः पर्वता नामधेपतयस्ते मा अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पुरोधायामस्याम् प्राधिष्ठायामस्याम् आश्या, दृत्यामस्यामागोत्यामस्यामाहिश्वस्याम् देवहोत्याम् स्वाहा सोमा वेरुधामधेपतिः समावत् अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् पुरोधायामस्याम् प्रधिष्ठाया पस्याञ्चित्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा वायुरन्तरिक्षस्याधेपतिः समावतु अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम् राष्टायामस्याञ्जित्यामस्यामाकोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा सो यश्च भोषामधेपतिः मस्याम अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्याम् गोरोधायामस्याम् प्रादिष्ठाया मस्याञ्चित्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा चन्द्रमा नक्षत्राणामदेवतेः समावत् मस्यां, अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् पुरोधायामस्याम् गणतिष्ठायामस्याम् विद्यामस्यामागोत्यामस्यामाशिष्यस्याम् जयमहोत्याम् स्वाहा इन्द्रादिबोधे पतिः समावत् अस्मिन् ब्रह्मन्यस्मिन्कर्मण्यस्याम् पुरोधायामस्याम् प्रातिष्ठायामस्याञ्चित्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा मरुताम् गापाशो नाम देवते समावत् अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् पुरोधायामस्याम् प्रातिष्ठायामस्याञ्चत्या कस्यामापोद्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा वर्गः प्रजानामधेवतेः अस्मिन् ग्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम्बाधिष्ठाया मस्याञ्जित्यामस्यामागोद्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा यमः पित्रेणामधेपतिः समाहावत् अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् पुरोधायामस्याम् प्रातिष्ठाया मस्याञ्जित्यामस्यामागोत्यामस्यामाशर्यस्याम् देवहोत्याम् स्वाहा हितरः पदेते अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् वोरोधायामस्याम् प्रातिष्ठाया मस्याञ्चित्यामस्यामाकोद्यामस्यामाशिष्यस्याम् देवहोद्याम् स्वाहा तथा वादे मा वन्दो अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम्बोरोधायामस्याम्बधिष्ठायामस्याञ्जित्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा ततस्तता महास्ते महावो अस्मिन् ब्रह्मण्यस्मिन्कर्मण्यस्याम् पोरोधायामस्याम् भ्रातिष्ठायामस्याञ्चित्त्यामस्यामागोत्यामस्यामाशिष्यस्याम् देवहोत्याम् स्वाहा पर्वादाद्विरो ने गङ्गादङ्गात्समाहृतम् शेपोगर्भजरे दोधासरोः पर्णविवादधत् यथेयम् जिवे महे भूतानाम् गर्भमादाधे येवा दाधामि च गर्भम् दस्ने त्वामवासे हुवे गर्भम् देहि जनेवानि गर्भम् देहि सरस्वते गर्भम् द अश्विनो बाधत्ताम् पुष्कारसजा गर्भम् देवो बृहस्पतेः गर्भम् दैन्द्रश्चाग्न्यश्च गर्भम् धाता द धातुते विष्मयोनिम् कल्पय तत्पष्टाः रूपाणि विंशतो आसीन्त प्रजापादर्धाता गर्भम् दधातुते यद्वा देवी सरस्वती यदिन्द्रावृत्रहावेदवद्गर्भकलाणम् विवा गर्भाषाधेनाम् गर्भो वनस्पतेनाम् गर्भाविश्वस्य भूतश्च सोऽग् मे गर्भमेहधाः अधिस्कन्दवीलयः स्वगर्भमाधेहि योन्या वृषादिवश्नावन्दजायेत्तानायामसि विजेः स्वबारहत्स मे गर्भस्य योनिमासायाम् अदश्च देवाः पुत्रम् सोमपावोभयामिनम् धातश्रेष्ठेन गीण्यः उमांसम् पुत्रमाधे हृदश मे मासि सूतवे त्वष्ठश्रेष्ठेन लोपे नस्यानार्यागमेण्यः उमान्सम् पुत्रमाधे हृदश सवेदश्रेष्ठेन रूपेण स्यानार्या गीण्योः उमांसम् पुत्र माधेः दश मे मासि सूतवे यापते श्रेष्ठेन रूपेण हे ओञ्जि यज्ञसमिध स्वाहाज्ञप्रविद्वानिहवो युनक्तो युनक्तो देवस्य विताः प्रधानन्यस्मिन् यज्ञमहिषस्वाहा इन्द्रामुक्ता मदान्यस्मिन् यज्ञे प्रविद्वान्यो दन्तांसि यज्ञे मारुतस्वाहा मातेवाम् विमृतेहयुक्ताः येयमागम्बर प्रोक्षणेभरयज्ञम् तन् मानादेजस्वाहा विष्णर्युलग् बहुधा तपांस्यस्मिन् यज्ञेऽसुजस्वाहापष्टायुनग् बहुधानुभूपा अस्मिन्यज्ञे सुस्वाहायुनत्वाशिषोन्वा अस्मिन् यज्ञे प्रविद्वान्यो नक्तसेजस्वाः सोमायनुनक्तबहुधापयां स्वस्मिन् यज्ञे सुजस्वाहा इन्द्रायु नक् बहुधा वेर्यान्यस्मिन् यज्ञे सेजस्वाः अश्वेन ब्रह्मणाया समर्वाञ्च वशत्कारेण यज्ञम् वर्धयन्तौ बृहस्पते ब्रह्मणायाश्चर्वाञ्जज्ञायम् स्वरितम्ना यस्वाहा ऊर्ध्वास्य समिधा भवन्त्योर्ध्वा शुक्रा शोचे षज्ञेः युमर्ता मा सुस्तनूनपादशो नो भूरे पाणिः देवो देवेशो देवः पथवानश्निमद्भातेन मध्वा यज्ञम् न क्षरे प्रैानो न राशंस अग्निः सुकृदेवस्य पिता विश्ववारः अच्छाय मे दिशमासाघृताजिदीणा न वह्निर्नमासा अग्निःसृजोऽध्वरेश प्रयक्षसयक्षतस्य महिमानामग्नेः परे मन्द्रासुप्रयक्षवशा पश्चातिष्ठन्मसुधातारश्च देवीरन्वस्य विश्वे व्रतम् रक्षन्ति विश्वः भ्रङ्गच्नेऽर्धाम् नापत्यमाने आशुष्वयम् दे हृदय उपागे वृषासा नक्षे मयि यज्ञमावता मद्भरम् देवाहोता दैवाहोता लभूर्ध्वमद्भरम् नोग्नेऽर्जिक्वयापि प्रेणत तिस्रो देवे बहिरेतम् सादन्ताभिचरस्व जी महे पाराजी गृणाना अन्नस्तु देवमद्भूतम् पुरुक्षो देवत्पष्टादायस्पोषम् निश्य नाभेमस्य वनस्पदैवासुचाराणः स्माह ना। देवेभ्यो अग्निर्हव्यम् शामिता स्वादयतु अग्ने स्वाहा गृणहि जासवेद इन्द्राय यज्ञम् विश्वे देवाविरुदञ्जोषन्ताम् नव प्राणान्नवभिः सम्मेते दीर्घायुत्वाय शतशाहारदाय हरेते त्रेणेलते फ्रेण्यय क्षेत्रेणि तपसाभिष्ठितानि अग्निः सौर्यश्चन्द्रमा भोमिरापोद्यौरन्तरिक्षम् अदिशो दिशश्च आर्तवार्तुभिः संवितानानेन मातृहृताः पालयन्तु त्रयः पोषाः मनक्तो पोषापयसाघृतेन अन्नस्य भौमा पुरोषस्य भौमा भौमा पाशोनाम् त्रयः श्रयन्ताम् विवाहादित्यावसून समोक्षदय इममिन्द्रसंसृज वीर्येणास्मिन् तृणोच्छ्रायताम् वोषयिष्णो भूमिष्पा वा तु हरेदेन विश्वभृतज्ञे भर्त्वया सा सजोषाः वीरोद्धश्च अर्जुनम् संविदानम् नक्षम् रसा सुमनस्य मानम् प्रेधा जातम् जन्मनेदम् हिरण्यमग्नेरेकम् प्रियतमम् बभो वसामस्यैकम् हिंसिदस्य परापतत् अवामेकम् वेधसाम् प्रेधा हुस्तत्ते हिरण्यम् ध्रुवृतस्तायुषे त्यायुषम् जमदग्ने कश्चपश्च त्यायुषम् प्रेधामृतश्च दक्षा नेऽण्यायोऽंसिदेकरम् त्रयस्वपर्णास्त्रमृताय गायन्येकाक्षरमपि सम्भूय शक्त्वाः प्रत्योऽहन्मृत्योऽमृतेन सागमन् प्रतधानादुरितानि विश्वाः निवस्त्वा पातु हरेतम् मध्या स्त्वा पात्वर्जुनम् भोम्यायस्वयम् पातु प्रागाद्देव पुरा अयम् इमास्ति स्रो देव पुरास्तु तास्त्वा रक्षन्तु सर्वदा तास्त्वम् बिभ्रद्धत्यस्युत्तरोर्विषाम् भव पुरम् देवानाममृतम् हिरन्मय्या वेधे प्रथमो देवोऽग्नेः तस्मै न मोदशप्रजे कृणाम्यो मन्यन्ताम् कृणुतावधे आत्वाऽदत्वर्य मापोषा बृहस्पतेः महर्जातस्य यन्नामते नत्वा ते जदामसे ऋतुभिष्ट्वा त्ववैराजोषेवच्च सेत्त्वा संवत्सरस्य ते च सा तेन सम्भानकण्मसे हृतादुल्लुप्तम् न समक्तम् भूमि भिन्दान् सपत्थानधारांस्य गृण्वदामारोहमह ते सौभागाय पुरस्थाद्युक्तो वाहजातवेदोऽग्ने विद्धि क्रियमाणयथेदम् त्वम् भिषग्भेषकर्ता त्वयागाम शम्बुरोषंसनेम कथा तदग्ने गुणजातवेदो विश्वेभिर्देवैः सह यो नादिदेव यत मो जघास यथासो अस्य पारिधिष्पतादि यथासो अस्य पारिधिष्पतादि तथा तदग्ने पिशाचो अस्य य तमोद्घासाग्नेयविष्ठप्रतिपम् वृणेः यदश्च श्रतम् रथयतयत्पराभृतमात्मना दघ्नय्यतमत्तेशाचैः तदग्ने विद्वान् पुनराभारत्वम् शरीर माम् समसमेरयामः आमे सुपक्वे सपले विभक्ते यो माशाचो अशने ददम्भ आत्मना प्रजयापिशाचाभ्यदयन्तामकदोयमस्तु श्रीरे मामन्थयतमोदम्भाकृष्टपत्न्ये दशने धान्ये यः आत्मना प्रजयापिशाचारियादयन्तामगदोयमस्तु पाम् मापाने यदा मोदतम् भक्तव्याद्या तूनाम् शया नेशयानम् तदात्मना प्रजयापिशाचा वियातयन्तामगदोयमस्तो प्रमानग यदा मोदतम् भक्तव्याद्या तूनाम् शया नेशयानम् तदात्मना प्रजयापिशाचा वियातयन्तामगदो यमस्तु क्रव्यादमग्नेतुरम् पेषादम् मनो हनञ्जहितादः त्वमिन्द्रो वाजीवज्रेणहम् दृश्यात्सो मशिरोस्य धृष्णोः स नादग्ने मृणजया दुधानान्नत्वा रक्षाम्सि कृता नासु जग्योः सहमो नाननोदः क्लव्यादो मा तेत्यामुक्षतदैव्यायाः समानजातवेदो यद्धृतम् यत्पराहृतम् यद्ध गात्रान्यश्च वर्धन्तामंशुरिवाप्यायतामयम् सोमस्येव जातवेदोऽशुराप्यायतामयम् अग्ने विलक्षिणम् मेऽध्या मयक्ष्मम् गृहणु जीवतो एतास्ते अग्ने समिधादजम् हानीः ोषस्वप्रतीकेना गृहाण जातवेदः कार्ताभिरग्नेशमिष प्रदे गृह्णाश्चर्चिषा या द्रव्याद्रूपञ्जो अस्य माम् धम् जिहेर्षते आवतस्त आवतः परावतस्त आवताः इहे वभावमानकामा गोर्वानो गापितृण संरद्धामि दृढम् त्वाभिजेरु पुरोष स्वो यदो जनाः उन्मोचन प्रमोचने वाचा वदामि ते यद् रुद्रो हेतशे विषये स्त्रिये पुंसे अदित्या वाचा वदामि ते न सो मातृगताक्षे से पितृगताच्च उन्मोचन प्रमोचने वाचा वदामिते यत्ते माता यत्ते पिता चामिर्भ्राता च सर्जातः प्रत्यक्षेवस्वभेशजम् जनदश्चिम् कृणो मिथ्या इहैहे पुरुष सर्वे न मनसा सह दोतो यमस्य मानो गा अधे देव पुरायीः अनोः ततः पुनरेः विद्वानुदयानम् वृथः आरोहणमात्ममानम् जीवतो जीवतो यानम् मावेभेर्नमारिष्यसि जलदृष्टिम् गृणामि त्वा निरवोचमहै यक्ष्मङ्गेरभो अङ्गज्वलम् नव अङ्गभेदोऽङ्गज्वलो यश्च देहृदयामयः यक्ष्मस्येव एव प्रापद्वाचा साधः परस्तराम् ऋषे बोधप्रदेबोधावः स्वप्नायश्च जागेभिः प्राणस्य गोप्तारोदिवानक्तम् च जागृताम् अनोपसद्य इह सूर्य उदे उदेः मृत्योर्गम् भेदा कृष्णाश्चित्तमस्परे नमायमाय नमास्तु मृत्यवे नमः न यन्ते उत्पालनश्चयो वेदृतमग्निम् पुरोदधे स्मरिष्टदादये अयितु प्राणायितमनायत चक्षुरथ बलम् शरीरमस्य सङ्गीताम् तत्पद्भ्याम् प्रतिष्ठतो प्राणेना गे चक्षोषासम् समम् समेरयतन्वासम् बलेन वेथामृतस्य मानुगान् मानुभूमि गृहोऽभवत् माते प्राणमुपातसन्मा पानोऽपि धायिते सो यस्वाधेपदम् मृत्यो हृदा यच्छतुरश्मिभिः यमन्तर्वातह्वा बद्धा परनिष्पदा त्वया यक्ष्मञ्जरवोचम् शतम् रोपेश्च तक्मनाः याम् ते चक्रुरामे पात्रे याञ्चक्रुर्मिश्रधान्ये आमे माम् च कृत्याक्रः पुनः प्रदेहरामिताम् याम् ते चक्रक्रगवागावजे भायाम् गो रेण अव्याम् च कृत्याक्रः पुनः कृत्याक्रः पुनः प्रदेहलामिताम् यान्ते चक्रुगामूलायाम् बलाकम्बालराच्याम् क्षेत्रे दे कृत्याञ्चक्रः पुनः प्रदेहलामिताम् यान्ते चक्रुर्गार्हवत्ये गोर्वाज्ञा उदुश्चिताः शालायाम् वृत्यायाञ्चक्रः पुनः प्रदेहरामिता याम् ते चक्रः सभायाञ्चक्रवाधिदेवने अक्षेषुप्रदेहरामिता यान्ते चक्रः सेनायाञ्चक्रविश्वायुधे रुन्दुभो गृत्या याञ्चक्रः पुनः प्रदेहरामिताम् ृत्याम् कूपे वदुः सद्मानि कृत्या याञ्चक्रः पुनः प्रदेहनामिता याम् ते चक्रुः पूरुषास्थे अग्नौ सङ्घसुखे जयाम् लोकम् निर्दाहम् कृत्या पुनः प्रदेहनामिता अपरचेनाभारयिणाम् ताम् वचेतप्त धेरोमर्याधेरेभ्यः सञ्जाभारादित्या यश्चकारण सजाकर्तुम् सस्रपादमङ्गुलिम् चकारभद्रमस्मभ्यमभयो भगवद्भ्यः वृद्धाकृतम् वलगिनम् मूलिनम् समथेयम् इन्द्रस्तंहन् त्वमहता बुधैनाग्ने्यत्वस्तया